नारदपुराणम् पूर्वार्थम् अध्यायम् हण्ड्रेड् एण्ड् सेवन् ब्रह्मोवाच अधमास्यम् पुराणम् ते प्रवक्ष्ये द्विजसत्तम यत्रोक्तम् सप्तकल्पानाम् वृत्तम् संक्षिप्य भूतले व्यासनवेदविदुषा नारसिंहोपवर्णने उपक्रम्य तदुद्दिष्टम् चतुर्दश सहस्रकम् मनुमत्स्यसुसंवादो ब्रह्माण्डकथनं तथः ब्रह्मदेवासुरोत्पत्तिर्मारुतोत्पत्तिरेव च मदनद्वादशी तद्वल्लोकपालाभिपूजनं मन्वन्तरसमुद्देशो वैश्यराज्याभिवर्णनं सूर्यवैवस्वतोत्पत्तिर्बुधसङ्गमनं तथा पितृवंशानुकथनम् श्रद्धाकालस्तथैव च पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव च कीर्तनम् सोमवंशस्य ययादिचरितम् तथा पितृवंशानुकथनम् सृष्टवंशानुकीर्तनम् भृगुशापस्तथा विष्णोर्दशधा जन्मनेक्षितौ कीर्तनम् भूरुवंशस्य वंशो हौ क्रिया योगस्ततपश्चात् पुराणपरिकीर्तनम् व्रतं नक्षत्रपुरुषम् मार्तण्डशयनम् तथा कृष्णाष्टमीव्रतम् तद्वद्द्रोहिणी चन्द्रसंहितं तडागविधिमाहात्म्यम् पादपोत्सर्गये वज सौभाग्यशयनम् तद्वदगस्त्य व्रतमेवज तथानन्दतृतीयाय रसकल्याणिनी व्रतम् तथैवश्च व्रतं सारस्वतं पुनः उपरागाभिषेकश्च सप्तमी शनं तथा भीमाख्या द्वादशी तद्वदनङ्गनं तथा अशून्यशजनं तद्वस्तथैवाङ्गारकव्रतं सप्तमी सप्तकं तद्वद्विशोकद्वादशी व्रतम् मेरुप्रधानं दशदा ग्रहशान्तिथैव च ग्रहस्वरूपकथनं तथा शिवचतुर्दशी तदा सर्वफलत्यागः सूर्यवारव्रतं तथा सङ्क्रान्तिस्नपनं तद्वद्विभूतिद्वादशी व्रतं षष्ठीप्रधानमाहात्म्यं तदा स्नानविधिक्रमः प्रयागस्य तु माहात्म्यं, माहा माहात्म्यं द्वीपलोकानुवर्णनम् तथान्तरिक्षचारश्च ध्रुवमाहात्म्य मे वजा भवनानि सुरेन्द्राणां त्रिपुरो द्योदनं तथा पितृप्रवरमाहात्म्यम् अन्वन्तरविनिर्णयः चतुर्युगस्य सम्भूतिर्युगधर्मनिरूपणं वज्राङ्गस्य तु सम्भूतिस्तारकोत्पत्तिरे वजा तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम् पार्वदी शिव तपोवनम् अनङ्गदेहदाहश्च रदिशोकस्तथैव च गौरीतपोवनं तद्वत् शिवेनादप्रसादनं पार्वतीषिसंवादस्तद्धे रोद्वाहमङ्गलं कुमारसम्भवत्तद्वत् तारकस्य वधो घोरो नारसिंहोपवर्णनम् पद्मोद्भवविसर्गस्तु तथैवान्धकखादनं वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च प्रवरानुक्रमस्तद्वत् पितृगाधानुकीर्तनं तदोभयमुखी दानं दानं कृष्णार्जुनस्य च तदसा वितृवाख्यानं राजधर्मस्तदैव च विविधोत्पादकधनम् ग्रहणां तस्तथैव च यात्रानिमित्तकथनं स्वप्नमङ्गलकीर्तने वामनस्य दुमाहात्म्यं वाराहस्य ततः परम् समुद्रमदनं तद्वत्कालकूडाभिषन्दनं देवासुरविमर्दश्च वास्तु विद्या तथैव च प्रतिमालक्षणम् तद्वद्देवतायतनं तथा प्रासादलक्षणं तद्वन्मण्डपानजलक्षणं भविष्य राज्ञमुद्देशो महादानानुकीर्तनं कल्पानुकीर्तनं तद्वत् पुराणेऽस्मिन् प्रकीर्तिदं पवित्रमेतत् कल्याणमायुकीर्तिविवर्धनं यप्पडे शृणुयाद्वाभि सयादिभवनं हरेः लिखित्वैतत्तु यो दध्याधेम मत्स्यगवान्निधं विप्रायाभ्यर्च्य विषुवे स यादि परमं पदम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मत्स्यपुराणानुक्रमणे कथनं नाम सप्तोत्तरशततमोऽध्यायः ओम्